भ्य नूषदव्राविभ्रूपदरुणीर्यशसागो मे रमोदि्या वृषसो भानुरक्ता आसूर्यो बृहदस्तिष्ठदज्रा ऋजुभक्तेषु विधिना च पश्यन् आदित्पश्चाबूबुधानाव्यम् विश्वे विश्वासु दुर्जासु देवामित्राधियेव ऋण सत्यमस्तु अच्छा भोचे यश सुन भक्तिम् भूतानम् विश्वमानसंविक्तम् सुच्यूदो अदृढन्नगवामन्धानपूतम् परिषिक्तमंसोह विश्वे जापदे धर्मजज्ञानम् विश्वे जापदे धर्मानुषाणा ग्निर्देवा नाम वा आमृणानः सूमृळीको भवतु जातवेदाः यो मध्येष्वृतसा वा देवो देवेश्वरतिर्निधायि होताय चिष्टो मन्नासुतध्यै हव्यैरग्निर्मनूषयैरजध्यै इह त्वम् सो नो सहसोनो अद्य जाता उभया अन्तरग्ने दूतयी यदे जानरुश्वर च मुष्कानृ नः शुक्रांश्च अत्यावृधस्नोरोहिताघृतस्नोर्गस्य मन्ये मनसा जविष्टा अन्तरीयदे अरुषायोजानो युष्माश्च देवान्विधमर्ता हर्यमनम् वरूणम् नं मित्रमेषामिन्द्राविष्णो मरुतो अश्विनोत स्वस्तो अग्ने सुरथः सुराधा येदुभह सुभविषेजनाय गोमा अग्ने वीमाश्व यज्ञो नृपः सखासदमिद प्रभृष्यः िलावाम् एणोः सुरः प्रजावान् दीर्घो रयः प्रदुभुद्रः स्वभावान् यस्तध्वम् जभरस्य श्विधानो मूर्धानम् वा दतपदे त्वाया भुवस्तस्य स्वतवान् वायुरग्ने विश्वस्माच्चेमघायत ऊरुष्या यस्ते परादन्नीयते चिदन्नम् निशिषम् मन्त्रमतिथिमुदीरत् आदे वयुरिणधे दुरोणे तस्मिन् रजध्रुवो अस्तु दास्वान् यस्त्वा दोषायबुडसि प्रशंसान् द्विजम्बा त्वा गृणवादे हविष्मान् अश्व न श्वेतमाहेम्या वाम् हादीपरोधास्वांसम् यस्त्वभ्यमग्ने अमृता जला सदुभस्ते कृणपाते यतश्रूते न स राजा समानो वियोषं नैनवम् हः परी वरदघायोः यस्य त्वमग्ने अध्वरम् जुजोषो देवो मत्तस्य ीतेत सोऽत्रायविष्टासाय यस्या विधतो मृधासाः चित्तिमचित्तिम् चिन बद्धि विद्वान् पृष्ठेव भीता विचिनचमत्तान् राजे च न स्वपत्याय देवतिम् चरा स्वादितिमुरुष्य कविम् स सासः कपयोदग्धा अतस्त्वम् दृश्याङ्गाग्नजेतान्वद्भ्युत्पश्येरद्भूताम् अर्ययेवैः त्वमग्ने वाघते सुप्रणीदिः सुतसो माय विधते जविष्ठ रत्नम् भरतसमानाय भृष्वृथश्चन्द्रमवसेतरुषणिप्रा अथाभयध्वजमग्ने त्वाजा बद्भिर्हस्तेभिश्च कृपातनुभिः कथम् न क्रन्दो अपा सा भुरुजो ऋतम् येव शुद्ध्यासुजानाः अथामादुरुषः सप्त विप्राजाये महि प्रथमा वेधसो नृ जिवस्पुत्रा अङ्गिरसो भवे माद्रिम् ऋजयघनिनम् सुगन्ताः अथायगाः पितरः परा प्रत्नासो अग्नृतमासुजानाः शुचिदजन्दिमुक्षाक्षमाभिन्दन्तो अरुणेरपव्रान् सुकर्मा नः सुनृतो देवजगतो वान्तः सुजन्तो अग्निम्ब बृहन्त इन्द्रमूल्भाङ्गव्यम् परिषदन्तो अग्मन् आयुधे वक्षुमति वस्वो अक्षद्देवानाम् यज्जनिमाञ्चुग्र मर्तानाम् चिदुर्वशीरगृभ्रम् वृधे चेदन्यकुपरस्यायोः अकर्मते स्वपासो अभूमरुतमा वस्रम् नुषसो विभातिः अनू न अग्निम् पूरुधासुश्चन्द्रम् देवस्य मर्मे एता ते दे अग्नवुचारिधो वोजामकपजेताजूषस्व उच्छोचस्व कृणयस्य सो नो महो राजः पूर्वकारप्रयन्धि आभो राजा राजानमध्वरस्य रुद्रम् भूतारम् त्यजम् रोदस्योः आज्ञम् पुरातनयित्नो रचित्ताद्धिरण्यरूपमपासे गृणध्वान् अजम् ज्योनिश्च कृमाजम् भयन्ते जाये वपत्युशती सुसाः सर्वाधीनः परिवीतो निषी ते मावूते स्वपाकप्रतीचीः आशृण्वते अद्रे पिताय मन्ना ऋचक्षरसे सुमृलीकाय वेधः देवाय षस्तिनमृताय संसग्रावे वसवतामधुषज्यमीडे अग्ने अस्यातस्य बोधृतज स्वाधीः कदा त उक्ता धाज्याणि कथा भवन्ति सख्या गृहेते कथा हतत्परूणाय कथा दिवे गर्हसे कन्नागाः कथामित्राय मेरुषे पृथिवी भ्रमगर्जम्ने गद्भगाय तध्यष्ण्या सुवृदसारो अग्ने कद्वादायत्प्रताभे सुभञ्जे पर्यघ्नेना सत्याजक्षे ब्रभक्कदग्ने रुद्राजृघ्ने अथ मने पुष्ण्यम्भराय कूष्णे क्वद्राजसुमाघाजहभिद्रे तद्धिष्णे वृगाजा ज्रभक्कदग्ने शरवे बृहते कथा सर्धाय मरुतामृताय कथा सूरे बृहते पृच्छमानः प्रदिभ्रमो दीतये सुराजसा धा जिभोजातवेदश्चिखित्वा ऋतेन ऋतम् निजातमीढा गो रामा स च मधु मत्वमग्ने कृष्णा सतीरुसा धासि नैषा चा वरुजेण ृतेन हिष्माः वृषभश्चेदत्तः पुमाः अग्निः पयस वृष्टेर अस्मन्दमानो अचलद्मजोधा वृषाः शुक्रम् दु दुहेरशिरूधाः ऋनाद्यम् जातन्भिरन्तः समङ्गीरसो नवन्त गोभिः सुनम् नरः परिषद नृषा स वाविश्वरभवज्जाते अग्नौ ऋतेन देवी वरुता अमृक्ता अन्नोभिरापो मधुमद्भिरग्ने वाजीनसर्गेणुप्रस्तु भालप्रसदमित्सवेतवेदधन्युः मागस्य यक्षम् सतमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः मा, मा भ्रातुरग्ने अग्रजोर्णम् वेर्वा सन्तम् रिपोर्भूजेम रक्षाणो अग्नेतव रक्षाणे भीरा रक्षाणः सुमहप्रीणानः प्रतिष्पुरविरुजविद्वम्भो जहि रक्षो मही चिद्वावृधानम् येभिर्भवसुमनाः अग्ने अर्जिमासुसमन्नाभिस्सुरवाजान् उत ब्रह्माण्यङ्गिरो जुषस्वसन्तेः सस्तिर्देव माता जनेता येता विश्वा विदुषे तुभ्यम् वेधो नीचान्यग्ने निण्यापचांसि निभजरागमजेताव्यान्यसंशिषम् वदिभिप्रमुक्थै कृणष्वजः प्रसीदिन्न पृथ्वीम् याहि राजेवा न प्रसीदिन्द्रो नानोऽस्तासि विध्या रक्षसस्तपिष्ठैः तमभ्रमास आशुजापतम् जनसृसृशतासोसूचानः तूम् शयज्ञे जिह्वापदङ्गानसम् दितो विसृजविश्वाघुङ्काः प्रतिष्पसोऽसृजतोर्णि तमोभवा पायुर्विशो अस्य अरब्धः यो नो दूरे अघसम् सो यो अञ्जज्ञेमाकिष्ठेऽिरादधर्षीत् उदग्ने तिष्ठ प्रत्य अमित्रामोषधा दिग्महेदे चो नो हरादिम् सविधानचक्रे गीचादम् धक्षदन्नशुष्कम् ऊर्ध्वो भवप्रतिविद्याध्यस्मदाविष्क्रेणष्वदेव्यान्यग्ने अवस्थिरा तान् यादु जूनाम् जामि मजामिम् प्रवृणीयु शत्रून् सते जानादि सुमतिञ्जविष्ठय जीव ते ब्रह्मणे गातुमैरत् विश्वान्यस्मै सुदिनाभिराजोद्युम्नान्यर्यो विद्रो अभिद्यूत् शेदग्ने अस्तु सुभगः सुधानित्येन हविषाजोक्तैः प्रेषदिष्व आयुषितु गौणे विश्वे तस्मै सुतिनासा दृष्टिः अर्चाभिते सुमतिम्भो श्यर्वाक्सन्ते रे बाबाता जरतामियङीः श्वश्वा श्वा सुरथावर्जये मा स्मे क्षत्राणि धारयेनून् जिगत्वा भूर्याच रेतुपद्मन् दोढावस्तर्जि जिवाम् समनुद्यून् क्रीडन्तस्त्वा सुमनासः सफे माभिद्युम्ना तच्छिवाम् सोचनानाम् यस्त्वा स्वस्व हिरण्यो अग्न उपजादिवसुमता रथेन तस्य त्राताभावसि तस्य सखायस्ता आदिथ्यमानुषग्जोषद् महोरूजामि बन्धुतापचोभिस्तन्माः विदर्गोत माधन्वीयायन्मो अस्य वच षष्टिकिद्धिहो तर्जमिष्टशुक्रतोदमूनाः अश्वप्रजस्तरणाय सुन्द्रासो भृकाश्रामिष्ठाः ते पायवः सद्यम् च निषाद्याग्नेतव नः पान्तमूर ये पायवो मामतेयम् तेः अग्ने पश्यन्तो अन्धम् तु दियादरक्षान् रक्षतान् सुकृतो हे दारिप्सम् दयद्रिभवो यम् स धन्या सोदास्तभप्रणीत्यस्यामवाजान् उभाशंसा अजाते अग्ने समिधा विधेमप्रति स्तमम् सस्यमानम् गृहाय स रक्षसपार्या तस्मात् द्रुवनित्रमहो अभद्याल् भद्राह्वा अपि भादवनाः ओ हरिः ओषे सजोषा देवाग्ने बृहधाः अनूनेन बृहदा वक्षधेनोपस्तभायतु पविन्नरोधाः माणि ददय इमाम् मह्यम् राजिम् देवो ददौ मत्याय स्वधावान् आकायकृत्सो अमृतो विचेता वैश्वानरोमृतामो यः वो साहज्जिवर्गामहि जिग्मभृष्टिः सहस्रादेतामृषभस्तु विष्मान् पदम् न गोरपगूढम् विद्वानग्निर्मह्यम् प्रेदूगोचन्मनीषा प्रदानिर्भभसद्दिग्मजम् भस्तविष्टेन शोचिषा यः सुबाधाः प्रिये विनन्दिवरूनस्य धाम प्रियामित्रस्य चेतको ध्रुवाणी अभ्रातरोनजोषणोऽव्यन्तः पतिरिपोनजनजो दुरे सः सन्तो अभृताः सत्या इदमम् पदमजनताकभीरम् इदम् मे अग्ने किय ते पावकामीरभारम् मन्म बृहदधा सृषदा गभीरम् जक्वम् पृष्टम् प्रजा सा सप्त धारातु तस्मिन्वे स मासमानमभिकृत्वा पुनतिरस्याः मन्नधिकारेरग्रे आरोपितम् जु रवाचिम् मे अस्य गुहाहितमुपनिग्वदन्ति यदुश्रिया नाम पवारि भवन् पादि प्रियम् भृगो अग्रणम् पदनम् वेः इदमुत्यन्महि महामनीश्रिया स चपूर्व्यङ्गोः ऋतस्य पदे अधिदेघुष्यद्रभुजद्विवेद अधद्युदानः पित्रोऽसृतृभ्यम् चाधुश्नेः मारुष्पदेपरमे परमे तिषः प्रजातस्य जिह्वा कृतम् वो जै न मनसा पृच्छमा नस्तभाससा जातवे दो यधीतम् त्वमस्य क्षायसि यद्धविश्वम् तिविज तु द्रविषण् जिम्बा किम् अस्यत्र पीडम् कद्धरत्रम् वि नोम भोचो जातवेदश्चित्त्वा गुहाध्वलः परामञ्जयम् नो देवीरमृतस्य मत्नी सूरो वर्णेन तदनम् नृषासाः मिजेन वचेन प्रदीर्त्येन अधा ते अग्ने किञ्चलायुधा सहासदासन्ताम् अस्य श्रिये स विधानस्य रक्षापसौरवी कन्दमारुरोच सद्वसा नदृशीकरूपः क्षिजविमलाय पूर्वारो अद्यौ गोर्ध्वभूषुणो अध्वरस्य होदरघ्रे तिष्ठ देवता ताजीयाम् हि विश्वामभ्यजिवन्म प्रभेधसश्चिन्निरसि ग्निर्मन्त्रो विदधेष्पचेताः ऊर्ध्वम् भानम् स विदेवासेन्ने वधूमंस्त भाजतु पद्याम् यदा सुूर्णी रातिनी धृदाची प्रदक्षिणि देवतादिमुराः ग्रः पशो आनक्तिसुधीतः सुमेकाः स्तीर्णे परिषे समिधाने अग्नासूर्ध्वर्युर्योदृषाणात् पर्यग्निः पसुपादहोता त्रिविष्टे प्रतिगापुदाणः परेत्मनामितद्रूरे दिहोताग्निर्मन्द्रो मधूपचारवा शवनङ्गस्य वाजिनो न शोकाभयम् ते विश्वाभुवनागरभ्राट् भद्रातेः अग्नेश्वरघोरस्य सरोविशूनस्य चारुः न यत्तेः स्वोचिस्तमसावरणम् तान्धस्मानस्ती ईरे पाधोः न यस्य साधुर्य कौरवारिण मातरा नो अथा मित्रो न सुधीकर्पापोभ्युर्देलायवानुषेषु भिक्षु जर्यम् पञ्चदीजरान् सम्वदा नास्तु सारो अग्निम् मानुषेषु भिक्षु सर्वधर्म शुक्रम् श्वासम् परम् मिग्मम् अग्ने हरिजो घृतस्वारोहितासविज्वन् च स्वन्ताः अरुषासो वृष देवता आदिभ्वन् तस्मा ये हत्ये ते माना अजासस्त्वे रासोः श्येनासो नदु वसनासो अर्थम् सो मारुतम् न शर्धाः अकारिब्रह्म सनिधानभ्यम् संसार्युक्थम् यजते व्यूधाः होदारमग्निम् मनुषो निषे दुर्नमस्यन्तभुसिजः संसमायोः प्रथमो धायि धातृभिर्होदा जिष्ठो अध्वरेष्वीड्याः यमप्रवादोऽभि गोविर्विचर्मणेषु चित्रम् विभ्वम् विषयीषे अग्नेकदाद्भुवद्देवस्य चेतनम् अधाहित्वा जगृद्भिरेमर्तासो विक्ष्मीड्यम् ृतावानम् विचेतसम् पश्यन्तोद्यामि वस्त्रुभिः विश्वेरामध्वराणाम् हस्तत्तारम् दमे दमे आशुम् दूतम् विभस्व गो विस्वायश्चर्षणीरभि आरभ्रः केतुमाजवो भृगा बाणम् विषयबीशे ित्त्वाम् सन्निषे दिने रणम् पावकसोचितम् यदिष्ठम् सप्तधामाभिः तं सरस्वदेश मादृशवराभीतमश्रेतम् चित्रम् सन्तम् गुहाहिकम् स्वेदम् गोचिरखिलम् ततः श्रेद्वियूदासस्मिन् नोधम् कृतस्य रामम् नृणयम् तदेवाः महार्नसारातहम् योमेलद्भरा यस धनि दूत्यानि विद्वान् भेदम् तारोदसी सन्ति दूतयीयदे प्रदिवापुराणो विदुष्टरोदिम आरोधनानि कृष्णन्तये मनुषतः पुरोभाश्चामिदेकम् यदप्रवीता तथा देहगर्भम् सद्यश्चिज्जातो भवसि तु दूतः सद्यो जातस्य ददृशा नवोजो यदस्य वातो अनुपाति शोचिः मृणक्ति जिह्मा दशेषु जिह्वा शिराजिगन्ना जयते विजम्भैः लषुजन्नाः कृषुवा ववक्षुम् धूतम् क्रीणुते जह्वो अग्निः वातस्य मेलिम् सजते निजूर्वम् आसुम्भवा जयते हिन्वे अर्वा दूतम्भोः विश्ववेदम् वाहममध्यम् यजिष्ठमृञ्जसे गिरा स हि वेदा वसुधितिम् महा आरोहणम् दिवः स देवाक्षति स आनमं देवां, देवायते दमे दाति प्रियाणि चिद्वसु स हो दासे दूदूत्यम् चिखित्वा अन्तरीयते विद्वान् आरोदनम् दिवः ये स्याः भजे अग्नये ददासुर्हव्यदादिभिः यै मनुष्यम् दयिन्धते ते राजा ते सुवीर्यैः स सवाम् सोऽसृङ्गिरे ये अग्नादधिरे दुवाह अस्मे राजो दिवेदि वेषम् च रन्तु पुरस्पृहाः अस्मे वाजासईरताम् सविप्रश्चर्षणीनाम् सवसामानुषाणाम् अधिक्षिप्रेव विद्यति अग्ने मृळवहासि यजीमादे भयञ्जनम् ये स बर्हिरासनम् समानुषेषु दुर्लभो अभिक्षु प्रावीरमर्त्यः दूरो विश्वे येषाम्भुवत् स सद्मपरिणीयते होता मन्त्रोदिविष्टिषुरोतानिषीदति उर अग्निरध्वरभूतो गृहपातिर्दमे उत ब्रह्माणिषी ईदति मे शिष्यध्वरी यता उपभक्ता जनानाम् हव्या चमानुषाणाम् वेषी द्वस्य दूत्या अञ्जस्य जु जोगोषो अध्वरम् हव्यम् वर्तस्य वोढावे अस्माकम् दोष्यध्वरमस्माकम् यज्ञमन्दिरः अस्माकम् शृणुधीभवम् परिते दूलभो रथोऽस्माश्नोतु विश्वसाः येन रक्षासि दासुषाः ज्ञेतभ्या स्वम् न स्तोमयि हृदिस्पृशम् हृध्यामा तमोहैः कृतो भद्रस्य दक्षस्य साधोः नेर्वितस्य बृहतो बभूथ यदि नो अर्कैर्वाणो अर्वाम् स्वा अर्णज्योतिः ग्ने विस्मेभिः सुमनाभीष्टेः अद्य गेर्भिर्घनन्तोग्ने हृदे दिवो नस्तनयन्त्र सुष्माः तभस्मादिष्टाग्ने सङ्गृष्टिरिता चिरह्न गिदाचिदत्तोः श्रे रुक्मो नरो चतुपाके घृतम् न भूतम् तनूररेवासु जीर्ण्यम् तत्तेः रुक्मो नरोचतस्वधावः कृतम् विद्ध्युष्मासनेः विद्वेषोऽग्नजिनोषिमत्तात् यदि था यजामानादृतावः शिवानः सख्या सन्तु देवेषु जुष्मे नो नाभिस्सदाने सस्मिन्नोधन् भद्रन्ते अग्ने सह सिन्न रोचते सूर्यस्य दृशेण चिदरोक्षितम् दृश आरूपे अह्म् गृणते मनीषाम् खम् वे पसा तु विजातस्तवानः विश्वेभिर्यद्भावन शुक्रदेवैस्तन्मोरास्त्वसमहो भूरिमन्म स्वतरज्ञे काव्यास्त्वन्मीरास्त्वदुःखाजाय दरिद्रवीणम् वीरपेशाधीये धासुभेमत्याद्वाजीवाजम्भरो विहायाभिष्टिकृध्यायते जा। सत्यसुष्मः तु जैर्देवजोतोमजो भुस्तदा सुग्ने अर्वाः स्वमग्नेत्र समुन्दे वयन्तोः देवम् मर्ताः अमृतमन्त्र जिह्वाम् देवोजु समावि वासन्ति देभेर्दमोहो सङ्ग्रहपादिमोहोराम् आरे अस्मदमधिमारे अम्भ आरे विश्वान् दुर्मलिञ्जन्निपासि दोषा शिवस्य हृदशूरो अग्नेयम् देवः सजाते स्वस्ति यस्तामग्जिलजाते यदस्रग्रस्ते अन्नम् गुणवत्सस्मिन्नहन् सद्यम् नैरभ्यस्त प्रसक्षत्तवक्रत्वा जातवेदश्चि जित्वान् विध्वन्यस्ते जभरच्छस्रमाणो मम अग्ने अनी रमसा सजी धानः प्रति दोषा मुषा सम्पुष्यम् रजम् स चते खण्डमित्राणि अग्निरे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य राजः तथाधिरत्नम् विधते च पिष्ठाव्या ऋङ्मत्या यस्वधावान् यच्चिद्धिते पुरुषत्रा च भिष्टादिक्तिभिश्च भिष्टा गृहागच्छिदागाः स्माो विश्वगग्ने ममश्चेदग्नयेन सोऽ गूर्वाद्देवानामुतमर्त्याना मा सखाय स तमिद्रीडा भयच्छातो कायतन यायसंयोः यथा हत्यद्वासमो गौर्यम् यत्पदिषिताममुञ्जताय ये ये जत्राह येवोऽष्वा अस्मन्मुञ्जकाव्यम् हताग्ने प्रतरन्नायुः प्रत्यग्निरुषसामग्रामख्यद्विभातीनाम् सुमना रत्नधेयम् सुकृतो जातमस्विना सुकृतोऽरोणमुत्सूर्यो ज्योतिषा देवयेति ऊर्ध्वम् भानुम् स विता देवो अश्रे द्रप्सम् स विध्वद्गविषोणसत्त्वा अनो्रतम् वरुणो यन्ति मित्रो यत्सूर्यम् दिव्यारोहयन्ति ृचे ध्रुवक्षे वाहनावश्यन्तोऽ सूर्यम् हरितः सप्त जह्वीश्व संविश्वस्य जगतो वहन्ति बहिष्ठेभिर्विहरन्यासिबन्धूपभव्यजन्नसी तम् देववस्म धरिसूर्यस्य धर्मे वाोः अस्वा अन्तः अनायतो अनिबद्धः कथायन्यम् वत्ता नोपमध्यतेन प्रजायादिष्वधजागोदरदर्शदिवस्कम्भः सुमृतत्वादिनाकम् प्रत्यग्निर्वसोहो जातमेधा अक्षद्देवो नोच मा नामोऽभिः आहत्योरुगाजारथे नैवम् यज्ञमुप नो जातमच्छ ऊर्ध्वम् केतुम् देवो, देवो अश्वे ज्योतिर्विश्वस्मेवाराज आप्राज्यावापृथिवी अन्तरिक्षाम् विसूर्यो रश्मिभिश्चीतानः आवहन् च ऋणेर्जोदिषा गान्महे चित्रा रश्मिभिश्चैकीताना रोधयम् केषु विकाय देव्यो वृषा यीयते सुयुजारथेन म् वहिष्ठा जिहतेवहन्तु रथा अश्वासपुरसोऽभ्योष्टौ ये हि वाम् मधुपेयायसो वा अस्मिन् येके वृषणामादयेथाम् अनायतो अनिबद्धः कथायन्यम् वक्ता नो वा भध्यतेन तया यादि स्वधया को अभग्निर्होताः नो अध्वरे भाजी सम्परिणीयते देवो देवेषु पर यज्ञ्याः परित्रिभिश्चध्वरम् याच्यज्ञेरथीरीव आ देवेषु प्रचोदधत् परिवाजापतिः कविरग्रर्ह्याय्यक्रमीत् तद्रत्नानिधासुषे अयम् यः सृञ्जये पुरो देववाते स मिध्यते युवामित्रदम्भ नः अस्य घा वीरजीवातोऽग्नेरी सीतमत्याः ऋग्मजम्भस्य मेरुषाः कमर्वम् तन्नसाः नसिम ऋषण् दिवशिशुम् दिवे दिवे बोधद्यन्मा हरिभ्याम् कुमारः साह देव्यः अर्चानहूत उदरम् उदत्याय जता हरीकुमारात्साहदेव्यात् प्रयाता सद्याददे एषवाहम् देवावस्विना कुमारः साह देव्यः दीर्घायोरस्तु सोमगः तम् युगम् देहे भावस्विना कुमारम् साह देव्यम् दीर्घायुषम् प्रवोदन आ सत्यो यातु मघवाम् विजेधी द्रवम् तस्य हरज कारते गृहाणः ेऽस्मिन्नोः अद्य सव ने मन्दध्यैः संसार्युक्तमुशने एव मेधाश्चिविदुषे एव सूर्याः यमन्व कविर्न निन्यम् विदधाः निषाधन्वशायस्यैकम् विपिपानो अर्चाः इन्द्रयुधासप्तकारो नह्नाः चक्रभजनाः गृह्णन्ताः स्वार्येति सुदृशीकमर्तैर्म हि ज्योतिरुचर्यद्धमस्तो अन्धातमाम् सिद्धीताभिलक्षेणभ्यश्चकार नृतामो अभीष्टौ इन्द्रो अभेत मृजेषु उभे आवत्रौ रोदयसी महित्वा कश्चिदस्य महिमा विरेच्यभियो विश्वाभुवना बभूव विश्वाय क्रोल्यानि विद्वा लभो रीरे च सखिभिर्निकामयीः अस्मानेवीभृगर्वचो भर्भजं गोमन्दमुसिजो विभूरोः पो वृत्रम् बभ्रिवाम् संपराहन् प्रावत्ते पृथिवी सचेताः रार्णाञ्चितमुद्रियाण्ये नास्पदिर्भवन् दूरधिष्णो अपो यद्रिम् गुरुः तदद्रा राविर्भूवत्सरमा भूर्यन्ते सर्वो नेता वा गोत्रा रुजन्नङ्गे राभिङ्गः अच्छा कविनृर्मणो गा अभीष्टौ स्वर्षा तामघपन्नाधमानम् ऊचिभिस्तमेषणोद्युम्न होदौ नियाभान ब्रह्मादस्यो हर्ता आदस्युघ्नामनसाया ह्यस्तम्भुवत् च कुत्सः रू चिकित्स धृतसिद्धारीः या जिगुत्सेन शरथमवस्य स्तो वा तस्य हर्जोलीसा नः हैद्राबादन्नञ्जिजोरम् कविर्यदहन् सद्योदस्योन् प्रवृणगुत्सेनात्र सूरश्चक्रम् मृहतादभीके त्वम् विप्रम् मृगाजम्सूजुवांस मृजिष्व नैवैदधिनाय नीः पञ्चासः कृष्णाणि वा बत्सहस्रात् कन्नपुरो सूर उपाके तन्वा भगो न हस्ते तवेषे मुधानः सिंहो न भीम आजूधानि बिभ्राज् इन्द्रम् कामा वसूयन्तो अग्धान् सर्वे नेन समाने चकानाः श्रवस्य वश समानास मुक्थैरो गो नृशैरो पुष्टिः तवे द्वैन्द्रम् सुखमम् भुवे मयस्ता चकार्याः पुरूणि व्यो मा वा ते चरित्रे गध्यम् जन्मक्षूवा जम्भरादिस्वार्हराधा हेग्माजरसपदाधिकस्मिञ्चिच्छूरमुहुके जनानाम् भोराजदर्य समृतिर्भवाद्यथा स्मानस्तन्वो बोधि भुवो विदा वस्य धीराम्भुवः सखा भृको वाज सातौ वामजप्रमादिमाजगन्मो ऋषम् सो चरित्रे विश्वदस्याः येभिन्द्रभिरिन्द्रत्वाजभिष्ट्वा मगवद्धर्मगवन् मगवद्धर विश्व आदौ या वोरज्जुम्नैरभिसन्तो अर्यः क्षपो मा देव शरदश्च पूर्वीः ेदिन्द्रायवृषभाजवृष्णे ब्रह्मा कर्मभृगवो नरथम् नो चिज्यथा रः सख्या विजोषधसन्दुग्रोह वितारूपाः नो शुलयिन्द्रणोग्रेणानयुषम् दरित्रे हिते हरिव ब्रह्मणव्यम् धियास्याम रक्षः स दासाः त्वम् महान्द्रुभ्यम् रक्षालक्षत्रम् ब्रह्मना वन्यदोः त्वम् रक्तम् सवसा जघन्वान् रे दज्जौरे दद्भूमिर्भियसा स्वस्य मन्योः राजम् तुभ्वा अपर्व दासार्दम् धन्वा निसरयम् तापाः ृत्तम् वज्रेण मन्दसानः स रन्ना पोजपसा हत कर्ता स्वपस्तमोऽभूत् यजीम् जानः सर्यम् सुभज्रमन बच्युताम् सद सोनभूम यजे कजच्यामज जगप्रभूमा राजा कृष्णीनाम् पूर्णभूत सत्यमे नम न विश्वे मदन्ति राति देवस्य गृणतो मघो नाः सत्रा सोमाः अभवन्नस्व विश्वे सत्रा मदासो बृहतो मदिष्ठाः सत्राभोवसु भदर्वसूम् दत्ते विश्वा अधिथा इन्द्रघृष्टिः स्वमथ प्रथमम् जायमानो मे विश्वा अधिथा इन्द्रघृष्टिः प्रपद आशया नमहिं वज्रे नमघन्विमृत्यः सत्राह नन्ताधृषम् तुम् रमिन्द्रम् महामापालम् वृषभम् सुभद्रम् हन्ताजो भत्नम् सनि तो तव जम् दाताः मघानि मघवाः सुराधाः अजमृतश्चादयते समेतेर्य आदिषु मघवाः अयम् वाजम् भरतिजम् सरोस्य प्रियासः सख्ये स्याम अजम् सृण्जयन् अयमुत प्रधागाः यदा सत्यम् क्रीडते मन्यमिन्द्रो विश्वम् दृढम् भज दयेज तस्मात् समेन्द्रोगाः जगत्सम् हिरन् यावश्रिया मघवायोः पूर्वेः ये भृभिन्द्रतामो अस्य धारैराजोऽपि भक्ताम् भरस्तवस्वाह कियत्स्विरिन्द्रो अध्येति माधुः कियत्पि दुर्जनि दुर्यो च जान यो अस्य सुष्मम् मुहुकैर्यक्ति वातो न जूतस्तनयद्भिनभ्रैः क्षियन्तम् त्वम क्षीयन्तम् कृणोति यक्ति रेणुम् अघवा रसदेवान्यभजौ ऋतस्तोतारम् भगवापसौधात् अयम् च क्रमेश नत्सूर्यस्य न्येत संवेदमच्छ्वसृपाणम् आकृष्णयेजुरानो जीघर्तृत्वजो बुध्ने रजसो अस्य योनौ असि गव्यन्त इन्द्रम् सख्यादभिप्रा अस्वायन्तो वृषानम् पादयन्तः जनीयन्तो जनितामक्षीतो दिवाच्या वयामो भतेन कोसम् त्रानो बोधितदेशालहाभिराभिख्यातावद्भिरासोऽ्यानाम् सखा पिता नर्ते मुलोकमु सदेव योधाः सखीयतामवितबोधिसखा कृणालयम् दस्तुवतेव योधाः वयम् शाते च कृमासबाध आभिस्समेभि हयम् त इन्द्र श्रुणेन्द्रोः मघवायद्धवृत्र भूरिण्येको अप्रदीनि हन्ति अस्य प्रियोज ऋजः समन्न किर्देवालयम् तेन मत्ताः देवानरेन्द्रोः मघवाः विरप्सीकरः साचर्षणी धृतनर्वा जनुषाम्धे यस्मे अधिश्रवोमाहीनम् यज्जरित्रे नो श्रुतयिम् ऋणुग्रीनानयिषम् चरित्रे नद्यो ओनपीवे अधारिते हरिवो ब्रह्मणव्यम् ध्याम्यो